अग्नाविष्मासुजोषेमावर्धम् तु वाङ्गिरः यम्नयेर्वाजेभिरागतम् द्वादष्टमे प्रसवश्च मे प्रजतिष्टमे प्रजतिष्टमे धीतिष्टमे क्रतुष्टमे सरस्तमे श्लोकश्च मे श्रावस्तमे श्रुतिस्तमे ज्योतिष्टमे शुभस्तमे प्राणश्चमे बाणस्तमे गानस्तमे च महाधितं वाच मे मनस्तमे चक्षुष्टमे श्रोत्यञ्चमे रक्षस्तमे पदञ्च मोधष्टमे सहस्तम आदिष्टमे राजमात्मा च मे धनो मे सन्मच मे वर्मच मेङ्गानि च मे स्थानि च मे ज्येष्ठं च माधिपत्यञ्चमयमङ्गमय भामश्चमयमश्चमय अम्भश्चमय जेमाच मे महिमाय मय वजमाज मय प्रथिमाज मय वस्माच मे इन्द्राघुजा च मय वृद्धञ्जमय वृद्धश्च मय सत्यञ्च मय श्रद्धा च मय जगच्च मे धनंजमय वसश्च मे द्विषष्टमय क्रीडाच मय मोदश्चमय जादञ्जमय हविष्यमाणञ्च मे सूक्तं च मय सुकृतञ्च मे वित्तञ्चमय वेद्यं च मय भोतञ्जम भविष्यति ष मे सुगन्ध मे सुभञ्जमलध्यञ्जमलधिष्ठ मे गं पञ्च मे न्तमे वयस्तमे प्रियञ्चमेऽनुकामश्चमे कामश्चमे सौमनसष्टमे भद्रञ्च मे श्रेजष्टमे वस्तमे रसस्तमे भगस्तमे द्रविणञ्च मे चन्दाच मे चन्दाच मे क्षेमश्चमे धज मे विश्वञ्च मे महस्तमे संविच्च मे ज्ञात्रञ्च मे सोष्टमे श्रीरञ्च मे वित्रं च मे भजञ्च मे सुगं च मे शगनञ्च मे सुखाच मे सुञ्च भोर्ध्वय सोमृदाच मे भजश्चमय रसस्तमय कृतञ्ज मय मधुज मेय सक्तिष्टमय सविधिष्ठमय कृषिष्टमय कृष्णिष्टमय जयकञ्चम औद्यञ्जमय रजष्टमय राजस्तमय पुष्कंचमय पुष्पष्टमय विभुज मय प्रभुज मे बहुज मे भोजस्तमय श्च मे खल्वाश्च मे गोधूमाश्च मे मधुराश्च मे अस्मा च मे मृत्तिका च मे विरजश्च मे पर्वताश्च मे श्रीकृश्च मे वनस्वधयश्च मे हिरण्यं च मे यश्च मे श्रीसञ्च मे त्रपुश्च मे श्यामञ्च मे लोहञ्च मे Such O Maria Aya Mota Murray Just know hey, just know hey अग्निश्च मरीन्द्रस्त मे सोमश्च मरीन्द्रस्तमे सविता च मरिन्द्रस्तमे सरस्वती च मरीन्द्रस्तमे घोषा च मलीन्द्रस्त मे बृहस्पतिश्च मरीन्द्रश्च मे मित्रश्च महीन्द्रस्तमे वरुणश्च मरीन्द्रश्च मे कृष्टा च मरीन्द्रश्च मे धाता च मरीन्द्रस्त मे कृष्णश्च मरीन्द्रस्त मे श्रियौष मरीन्द्रश्च मे हरिदश्च मरीन्द्रस्त मे विश्वे च मे देवालन्द्रश्च मे पृथ्वे च महीन्द्रस्तमे अन्तरिक्षं च स्त मे दिशस्थ मलिन्द्रस्त मे मोद्भाष मलिन्द्रस्त मे प्रजापदिष्ट मलिन्द्रस्त मे भगुं सुस्तम रश्मिस्तमे धस्तम उपागुं सुस्तमेन्द्रवाधस्तमे मेन्द्रावरुणस्तम आश्विनस्तमे प्रस्थानस्तमे शुक्रस्तमे वन्ध्रेतमाग्रहणस्त मे वैश्वदेवस्तमे ध्रवस्तमेवरस्तम लघुग्रहास्त मे दिव्याश्यास्तमैन्द्राग्नस्तमे वैश्वदेवस्त माहेन्द्रस्तम आदित्यश्च मे साहित्यश्च मे सारस्वतश्च मे बहुष्णश्च मे पाग्ने वदश्च ष्टमे वरिहिष्टमे वेदष्टमे धृष्टिजामे सृजस्तमे चमसाष्टमे प्राणाष्टमे स्वरवश्चमो भगवाश्चमे धने च मे म्लोनकासश्च मे वायुव्यालभश्चनश्च आग्नेभ्यञ्चमे हविध्वापञ्चमे गृहाष्टमे पुरोढाशाष्टमे पशताष्टमेतश्च मे स्वगाकालष्टमे अग्निस्तमे धर्मस्त मे कश्च मे सूर्यस्तमे प्राणस्तमेश्वमेधस्तमे पृथवे च मे दिदिष्टमे दिदिष्ट मे दोष्टमे गर्भाश्च मे वत्साष्टमे त्र्यविष्टमे त्रिबीज मे द्विव्यवाच्य मे नित्यौ हीज मे पुञ्चाविष्टमे पञ्चाबीज मे त्रिवत्सश्च मे त्रिवत्साधमे दुर्यवाच्य मे दुर्यौहीज मे वृष्ठवाच्य मे वृष्ठौहीजम वृक्षा चक्षुरुजज्ञानकल्पदा गच्छास्त्रे ज्ञानकल्पदा मनोरि ज्ञानकल्पदाम् ज्ञानकल्पदा महात्मारि एकाद मे त्रिस्रष्टमे पञ्चतमे सप्तच मे नव च मदेकादशतमे त्रयोदशतमे पञ्चदशतमे सप्तदशतमे नवदशतमदेकविगं षतिष्टमे त्रयोभिगं षतिष्टमे पञ्चभिगं षतिष्टमे सप्तविग्ं षधिष्ठमे नवभिगं षतिष्टमदेकत्रियं षष्टमे त्रयस्त्रियं षष्टमे चतस्रष्टमे अष्टौ च मे द्वादशतमे षोडशतमे विघं षतिष्टमे चतुर्विघं षतिष्टमे अष्टाभिगं षतिष्टमे द्वाद्रियम् सत्यमे क्षत्रियम् सत्यमे चत्वारिकम् सत्यमे चतुश्चत्वारिकम् सत्यमेष्टाचत्वारिकम् सत्यमे वाजस्य प्रथमश्चाभिजश्च क्रदुश्च सुवश्च मोर्धा चेहश्चान्यश्च भौवनश्च भुवनश्चाधिपतिश्च वाजो न सप्त प्रदुशश्च तो वा विश्वैर्यर्थनसाता विहावतु विश्वे अज्ञमनुदो विश्वभूते विश्वेभवन्वग्नः समिद्धाः विश्वे नो देवासाकमन्द विश्वमस्तु द्रविमं वाजो अस्मे पादस्य प्रसमन्द्रादाहस्मतम् मरुतः सोमपीत वाजिनो नो धने कवित्रा अस्रमध्वःपदमादि पुरस्तादृतमध्यतो नोर्वाजो देवागम् मृदुवे कल्पयाति पादस्य ऋत्वसपोदन्तमे दिविशायप्रवेदम् पदः दुर्गाम्बजवो रेशवयो दिव्यम् धनिक्षेपयो परेश्वरे पुरुषः सन्तु मह्यम् सम्मासुजाम्यपजसाधुतेन सम्मासुजाम्यपवोषधेभिः सोऽहं वाचकुंसने नमग्ने नग्तोषा सा समनसा विरूपे शापजेते शिशुमेककुम् समीची द्यावा क्षामारुग्मो अन्तर्मिभाति दे वा अग्निम् भस्मानार्द्रदानुश्रम्भोर्मयो भोरभिमा वा हि स्वाहा मारुतोऽसि मरुदाङ्गणश्रम्भोर्मयो भोरभिमा वा हि स्वाहासिवस्वाञ्छम्भोर्म योभोरभिमा वा हि स्वाहा जम् पतेम प्रभ्नस्य विष्टपगुम् सुबोरुहाणा अधिनाक उत्तमे वक्षा वजनरूपतृणो याभ्याम् रक्षागश्च पहग्यश्चे ताभ्याम् पतेम सुधृतामुलोकयत्रर्षजप्रसमजा पुराणाः सि समुद्रजा निलम् दुर्दक्षस्येन कृतावाः हिरण्यवक्षस्य गुणोभिरण्यम् आनिषत् नमस्ते अस्तु मामाहिंसे विश्वस्य मोर्धम् न च तिष्ठसि श्रितः समुद्रे ते हृदयमन्तरायज्ञा वा पृथिवीभुवनेष्वर्पिते बुद्ध्नो दत्तो पृथिम् भिन्ददिमः ो मोर्जासि पृथिर्जाना फिरोर्गपामोषधीना विश्वायुशर्म सत्रसे येन हिजस्तवसा सत्रमासतेऽन्धाना अग्निपरम् कः तस्मिन्नहन्यदथेना के अग्निमेतन्यमाहुर्मलवस्तेर्णवलिषम् तम् पत्नीभिरनुगत्सेव पुत्रैर्भ्याभिरुतवा हिरण्यैः नागम् गृह्णाना सुहृतस्य लोके तृतीये पृष्ठे अधिलोचने दिवः मा वाचो मध्यमरुहत्फुरण्यवजमग्निः सत्त्वतिश्चेतानः पृष्ठे कृषविजानिः तोदविद्युतकथस्पतम् कृणुतेजे पृथन्यवः अजमग्निर्वेदतमोऽवयोथाश्रयो दीप्य नाम प्रयुच्छन् विभ्राजमानस्य निरश्रमध्यपुवप्रया च दिव्याणिधाम सम्प्रत्यमनुसम्प्रजाताग्नेनाम् कृणुध्वम् अध्वरस्मिन् विश्वे देवालयमानश्च सीतता येन सहस्रम् वहसिवेदसम् जन्मो वहदेवजामः प्रतिदाष्टाभूर्ते युवानमन्वादाेत्वयतम् तुमेतम् तेनो निजो जातो अरोः जानन्नरोहायिम् ममा ज्ञवर्जो विहवेष्वस्त्वयम् द्वेस्तमुपम् पृषेम मह्यम् न मन्ताम् अध्यक्षणवृतना जयेम मम देवा विहवे सन्तु सर्वनिन्द्रावन्तो मरुतो विष्णुलग्निः ममान्तरिक्षमुरुगोपमस्तु मह्यम् बातः पवताम् कामे अस्मिन् मयि देवाद्रविणमायजन्ताीरस्तु मयि देवभूतिः दैव्या होतारामणि सन्तपोर्वे रष्टा स्यामदनुवासवीराः मह्यङ्गजन्तु मम जानिहुजागोजिः सत्यामनसो मे अस्तु मालिकाहम् विश्वे देवासो अतिवोचता मे देवे षडुरुणः कृणोद विश्वेदेवासह्यवीरगध्वन् माहास्महि प्रजदामातनो धर्मारथामग्हते सोमकार्यम् अज्ञम् प्रति नृतम् पुरस्तादब्ध्यो गोपाः परिवाहिनस्त्वम् पुनस्तेषाम् प्रबुधा विनेशत् धाता धातॄणाम् भुवनस्य यः सेवम् स पितारमधिमादिशाहम् यज्ञमश्वि मोघाबृहस्म्यथात् महिषम् स तस्मिन् हवे गुरुभूदः पुरुक्षो सा <Sess> प्रजायै हर्यश्वपरादाः येन सवद् अवदे भवन्ति राज्ञिभ्रामपबाधामहेतान् सव रुद्रा आदित्या उपरिस्पृशम् अग्रम् चेत् पारमधिराजवक्रन् अर्वाञ्चमिन्द्रमुतो हवामहे इमण्णा यज्ञम् वि हवे जुष स्वाश्च कुर्मो हरिवो मे दिनम् त्वा अग्नेर्मन्वय प्रथमस्य प्रचयतसोदम् पाञ्चजन्यम् बहवः समिन्भते विश्वस्याम् विशुप्रविशिवागुंसमेमहे सनामन् सत्त्वगुम्भसः यस्येदम् प्राणन्यविषद्य चेत् हिरश्च जातम् जनपानम् च केवलम् इन्द्रस्य मन्ये प्रथमस्य प्रचेतसो वृद्धघ्नस्तो मा उपमामुपागुः योजासुषस्कृतो हवमुपगन्दासनामम् छत्वगम्भसः सङ्ग्रहमन्नयुसम् पुष्टानुसगम् सृजति त्रयाणि सौमेन्द्रन्नाथराजाहवेश सनामम् छत्त्वम्भसः निद्रा ्रातानो चामि सुष्ठरम् तमुपयाति दोषजन् च तमागसः यौ च रक्षदः स्थौ नो च तमागसः उप श्रेष्ठानमाशिको देवयोस्थिरम् सौमि वायुं सवितारन्नाशिकौ यो हमीमितौ नो चमागसः देवौ देवेश्वरसितमोजस्तौ नो मञ्च तमागसः सूर्यायास्त्रिशक्रेण सगुंसमिच्छमानौ ितौ नासिरोजो हवे मितौ नो मुञ्चतमागसः मरुताम् राजम् विश्वामो भवेजमानो तदेतेनो मुञ्चन्त्वेन सह धर्ममायुधम् पीडितकम् सहस्वद्भिव्यम् सद्घकृतनासि विष्णु सौमिदेवान् मरुतो नासिरोजो हवी मितेनो मुञ्चन्त्वेन सह देवानाम् मङ्गे अधिनो ब्रुवम् तु प्रेमाम् वाचम् विश्वामवम् तु विश्वे वासो न भवे सुजमानो तदे तेनो मञ्चम् त्वेन सह यदि शोचनिपौरुषेजेन दैवजेन सौम्यविश्वान् देवान्नाथजोजो हवीमितेनो मुञ्चम् त्वेन सह अण्त ने त्वम् व्येश्वानरो न भूत्याकृष्टो दिवि ये अपृथेता मुमितेभिरोजो भिजे प्रतिष्ठे अभवताम् वसूनाम् स्तौमिञ्ज्यावार्थिवे नाचितो जोहवीमिते नोमम् च तमगुम्हसः गुरुजे वजवत्मनो पञ्चेत्रस्य पत्नी अचिनोऽ स्तौ यज्जा वार्थिवे नाचितो जोहवीमिते नोमम् च तमगुम्हसः यत्ते वजम् पुरुषप्राजभिष्ठा विद्वागुंसस्य गृमागच्छनागः स्वस्माकम् अदितैर नागाव्येनागुम् शिशिश्वसो विष्पगग्ने यथा हरत्वसमो गौर्यञ्चित् प्रतिषिता मोञ्चदाय तत्रा देवात्तमस्मत्प्रमोन्धाव्यगुम्भप्रदायज्ञे प्रतराह्युः हरिः ओ